कृष्णयजुर्वेद अश्वमेधम् पार्ट् टु हरिः ॐ प्रजापदिरश्वमेधमसृजद सोऽस्मा त्रिष्ठोपाक्रामद तमष्टा दशिभिरनुप्रायुङ्क्त तमाप्नोद माप्त्वाष्टा दशभिरवरुन्ध यदष्टादशिन आलभ्यन्ते यज्ञमेव तैराप्त्वा यजमानो वरुन्धे संवत्सरस्य वा एषा प्रदिमा यदष्टादशिनः द्वादशमासा पञ्जऋतवः संवत्सरोष्ठादशः यदष्टा दशिन आलभ्यन्ते संवत्सरे मे वतैराप्त्वा यजमानो वरुन्धे अग्निष्ठेण्यान् पशू नुपाकरोति इतरेषु जामित्वाया नव नवा वा सवीर्यत्वाया स वीर्यत्वाय यदा्यैः सघुस्थापयेद व्यवस्यदा पिता पुत्रौ ग्रामयो ग्रामान्तौ स्याताम् वृक्षिकाः पुरुषव्याख्रा परिमोषिण आव्यादिनीतत्करा अरण्येष्वा जायेरन् तदाहुः अपशवो वायेरे यदारण्याः यदारण्यै सद्गुस्थापयेद क्षिप्रे यजमानमरण्यं मृदगुं हरेयुः अरण्यायदना ह्यारण्याः पशव इति यत्पशो नालभेद अनवरुधा अस्य पशव स्युः यत्पर्यग्निकृधानुत्सृजेद यज्ञ वैश्यसं कुर्याद यत्पशूनालभे तेनैव पशूनवरुन्धे यत्पर्यज्ञि कृतानुत्सृजत्य यज्ञवैशसाय अवरुद्धा अस्य पश्यो भवन्ति न यज्ञवेश्यसं भवति न यजमानमरण्यं मृदगुं ग्राम्यै सग्स्थापयदि ये देवै पशवः क्षेमो नाम सं पिधा पुत्रा ववस्यदः समध्वानक्रामन्दि समन्दिकं ग्रामयोर्ग्रामान्तौ भवतः नर्क्षिकापुरुषव्याघ्राः आव्याधिनीस्तस्करा अरण्येष्वा जायन्ते प्रजापतिरपामयतो भौ लोकाववरुन्धीयेति स एतानुभयान् पश्यू न पश्यद ग्राम्यागुश्चरण्यागुश्च तानालभद तैर्वयस उभौ लोकाव वरुन्ध वा ग्राम्यैरेव पशुभिरिमल्लोकमवारुन्ध आरण्यैरमुं यद् ग्राम्यान् पशूनालभदे इममेव तैर्लोकमवरुन्धे यदारण्यान् अमुं तैः अनवरुद्धो ये वा येदस्य संवत्सर इत्याहुः य इद इदश्चादुर्मास्यानि संवत्सरं प्रयुङ्क्त इति येदावान् वै संवत्सरः यच्चादुर्मास्यानि यदेते चादुर्मास्य पशव आलभ्यन्ते प्रत्यक्षमेव तैः यजमानो वरुन्धे विवा एष प्रजया पशुभिरृध्यते यस्संवत्सरं प्रयुङ्क्ते संवत्सरः सुवर्गो लोकः सुवर्गं तु लोकं नापराध्नोति प्रजा वै पशवयेकादशिनी यदेत एकादशिना पशव आलभ्यन्ते साक्षादेव प्रजां पश्योन् यजमानो वरुन्धे प्रजापतिर्विराजमसृजद सा सृष्टाश्वमेधं प्राविशद तां तामाप्नोद। माप्त्वा दशभिरवारुन्ध यद्दशिन आलभ्यन्ते ए विराजमेव तैराप्त्वा यजमानो वरुन्धे एकादश दशत आलभ्यन्ते एकादश अक्षरा त्रिष्टुपत्रैष्टुभा पशवः पस्य पशूनेवावरुन्धे वैश्वदेवो वा अश्वः नानादेवत्याः पशवो भवन्ति अश्वस्य सर्वत्वाय नानारूपा भवन्ति तस्मान्नारूपा नाना पशवः बहुरूपा भवन्ति तस्माद् बहुरूपाः पशवः समृद्ध्यै अस्मै वै लोकाय ग्राम्याः पशव आलभ्यन्ते अमुष्या आरण्याः यद्ग्राम्यान् पशूना लभते इममेव तैर्लोकमवरुन्धे यदारण्यान् अमुं तैः उभयान् पशूना लभते ग्राम्यागश्चारण्यागश्च उभयोर उभयोर्लोकयोरवरुध्यै उभयान् पशूनालभते ग्राम्यागुश्चारण्या गुश्च उभयस्यान्नाद्यस्या वरुध्यै उभयान् पशूना लभते ग्राम्यागश्चारण्यागुश्च गुष्चा उभयेषां वरुध्यै त्रयस्त्रयो भवन्ति त्रय इमे लोकाः येषां लोकानामाप्ययै ये ब्रह्मवादिनो वदन्ति तस्मात् सत्याद अस्मिन् लोके बहव इति यत्समानिभ्यो देवताभ्यो न्येऽन्ये पशव आलभ्यन्ते अस्न् तल्लोक काम दधा तस्दस्मके बहव का सक जुहोतििया वै देवायािया वृदि में लोका एषा लोकानामाप्त्यै एषा लोकानां क्लृप्त्यै पर्यग्निकृता नारण्यानुत्सृजन्त्यभिगुं सा यै युञ्जन्ति व्रत्नमित्याह असौ वा आदित्यो व्रत्नः आदित्यमेव अस्मै युनक्रि अरुषमित्याह अग्निर्वा अरुषः अग्निमेवास्मै युनक्रि चरन्दमित्याह वायुर्वै चरन् वायुमे वास्मै युनक्रि परितस्तुष इत्याह इमे वै लोका परितस्तुषः इमने वास्मै लोकान् युनक्रि रोचन्ते रोचना दिवीत्याह नक्षत्राणि वै रोचनादिवि नक्षत्राण्ये वास्मै रोचयदि युञ्जन्त्यस्य कामेत्याह कामानेवास्मै युनक्रि हरि विपक्षस्येत्याह इमे वै हरि विपक्षसा इमे ये वास्मै युनक्रि शोणा कृष्णो नृवाकसेत्याह अहोरात्रे वै नृवाहसा अहोरात्रे एवस्मै युनक्रि यदा एवस्मै देवतायुनक्रि स्वर्गस्य लोकस्य समष्ट्यै केतुं कृण्वन्न केतव इदि ध्वजं प्रतिमुञ्चति ये वैनगं राज्ञां गमयति जीमोदस्येव भवति प्रतीकमित्याह यथा यजुरेवै तद यदे पन्थानः पूर्व्यास पूर्व्यास इत्यध्वर्युर्यजमानं वाजयत्यभिजित्यै परा वाेदस्य यज्ञ एदि यस्य पशु रूपाकृतोत्र वेद्या एदि एदग् स्तोदरेदेन तथा पुनरश्वमावर्धयासि न इत्याह वायुर्वै स्तोदाः वायुमेवास्य परस्तात् दधात्यावृत्यै यदा वैहविश्वो गृहीतस्य स्कन्धति एवं वा ये, ये ददश्वस्य स्कन्दति यदस्योपाकृतस्य लोमानि क्षीयन्ते यद्वालेषु पाचा लोमान्ये वास्य तत्सम्भरन्ति भूर्भुवसुवरिदि प्रजापत्याभिरावयन्ति प्राजापत्यो प्राजा वा अश्वाः स्वयैवैनं देवतया समर्धयन्ति भोरिदि महिषी भुवै दि वाता सुवरिदि परिवृक्ति येषां लोकानामभिजित्यै हिरण्ययाः आजा ज ज्योतिरण्यम राष्ट्रमश्व ज्योतिषैवास्म समीची दधा सहस्रम भवि सहस्र संविधसुवर्गो लोकः सुवर्गस्य से लोकस्याजित्य अप वा यदस्मात् तेज इन्द्रियं पशवश्रीक्रामी योऽश्वमेधेन यजदे वसवस्त्वाञ्जन्तु गायत्रेण चन्दसेदिमहिष्यभ्यनक्री तेजो वा आज्यं तेजो तेजस्यैवास्मै तेजोवरुन्धे रुद्रास्त्वाञ्जन्दुत्रैष्टुभेन छन्दसे ते इन्द्रियं दृष्टुप तेजसैवास्मा इन्द्रियमवरुन्धे आदित्यास्त्वाञ्जन्तुजागदेन छन्दस्येदि परिवृक्ति तेजो वा अज्यं पशवो जगदि तेजसैवास्मै पशूनवरुन्धे पत्नयोभ्यञ्जन्ति श्रिया वा ये दद्रूपं यत्पत्नयः श्रियमेवास्मिन् तद्दधति नास्मत् ज इन्द्रियं पशवश्रीरपपामन्दि लाजी ईञ्चाची ईयस्यो ममा इत्यमन्वमश्वायो पाहरन्ति प्रजा मे वानादीं कुर्वदे येदेव अन्नमत्तै तदन्नमद्धिप्रजापद इत्याह प्रजायामेवान्नाद्यं दधदे यदि नावजिघ्रेद अग्निः पशुरासीदित्यवख्रापयेद् आक्रान्वाजि क्रमैरत्यक्रमिद्वाजिद्यौस्थे पृष्टं पृथिवी स धत्तमित्यश्वमनुवन्त्रयदे एष लोकनामभिजित्यै समिद्धो अञ्जन्कृदरं मदीनामित्यश्वस्याप्रियो भवन्ति सरूपत्वाय तेजस वैष ब्रह्मवर्चस न्योश्वेधे नजदे होता च ब्रह्म च ब्रह्मद तेजस चैनम ब्रह्मवर्चसन चमर्धय दक्षिणदो ब्रह्मा भवति दक्षिणद आयतनो वै ब्रह्म बार्हस्पत्यो वै ब्रह्म ब्रह्मवर्चसमेवास्य दक्षिणदो दधाति तस्माद् दक्षिणोर्ध्वो ब्रह्म वर्चसितरः उत्तरदो होता भवति उत्तरद आयतनो वै होता आग्नेयो वै होता तेजो वा अग्निः तेजयेवास्योत्तरदो दधाति तस्मादुत्तरोर्धस्तेजस्वितरः यूपमभितो वदतः यजमानदैवत्यो वै यूपः यजमानमेव तेजसा च ब्रह्मवर्चसेन च समर्धयतः किग्स्विदासीत् पूर्वचित्तिरित्याह द्यौर्वै वृष्टिपूर्वचित्तिः दिवमेव वृष्टिमवरुन्धे किग्स्विदासीद्बृहद्वय इत्याह अश्वो वै बृहद्वयः अश्ववा वरुंधे किगस्वीदासी पिशंगीले पिशंगिला रात्रिमेवा वरुधेवीदासीपीले पिपिला अन्ना वरुस्वी देका चरदीयाह असौवा आदि चरति तेजयेवावरुंधे जा जाये पुनरह पुनरित्याह वै जायदे पुनः आयुरेवावरुंधे वरुे किगृस्विधिमस भेशजमित अग्निर्वैहिमस्य भेषजन् ब्रह्मवर्चसमेवा वरुन्धे किग्स्विदावपनं महदित्याह अय्यौ वै लोक आ वपनं महद अस्मिन्नेव लोके प्रति तिष्ठति पृच्छा मित्वा परमन्दं इत्याह वेद्यर्वै परोन्धपृथिव्याः वेदि मे वावरुन्धे पृच्छामि त्वा भुवनस्य नाभिमित्याह यज्ञो वै भुवनस्य नाभिः यज्ञमे वावरुन्धे पृच्छामि त्वा वृष्णो अश्वस्य रेद इत्याह सोमो वै वृष्णो अश्वस्य रेदः त्वमपि वा पृच्छामि वाजपरमं व्योमेत्याह ब्रह्म वै वाजपरमं व्योम ब्रह्मवर्चसमेवा वरुन्धे अपवाय प्राणाय स्वाहा व्यानाय स्वाहेदि संज्ञप्यमान आहुतिर्जुहोति प्राणानेवास्मिन् दधाति नस्मात् प्राणा अपकप्रामन्दि अवन्धीस्तावन्धिस्त्वा वन्धो प्रियन्त्वा प्रियाणां वर्षिष्टमाप्यानां निधीनां त्वा निधिपदि गुंहवामहे वसो आपैवास्मै तद्धुवदे अधो धुवन्त्येवैनम् अधोन्येवास्मै नृवदे त्रिपरिहन्ति तय इमे लोकाः येभ्य एव लोकेभ्यो धुवदे त्रिपुनः परिहन्ति षट् सम्पद्यन्ते ऋधुभिरे वैनं धुवदे अपवायेदेभ्यः प्राणाक्रामन्ति ये यज्ञे धुवनं तन्वदे ये नवकृत्व परियन्ति नव वै पुरुषे प्राणाः प्राणानेवात्मन् दधदे नैभ्य प्राणा अपक्रामन्ति अम्बे अम्बाल्यम्बिक इति पत्नी मुदा नयदि अह्वातै वैनां सुभगे काम्पीलवासि नित्याह तपये वैनामुपनयदि सुवर्गे लोके सम्प्रोन्वाधामित्याह सुवर्गमे वैनाल्लोकं गमयदि आगमजानि गर्भधमा त्वमजासि गर्भधमित्याह प्रजा वै पशवो गर्भः प्रजमेव पशूनात्मन् धत्ते देवा वा अश्वमेधे दे पवमाने सुवर्गलोकं न प्राजानन् तमश्वप्राजानाद यत्सुजीभिरसि पद्धान् कल्पयन्ति सुवर्गस्य लोकस्य प्रज्ञात्यै गायत्री दृष्टुजगदीत्याह यथा यजुरेवैदत्रय्यसूच्यो भवन्ति अयस्मयो रजदा्यः अस्य वैलोकस्य रूपमयस्मय्यः अन्तरिक्षस्य रजदाः दिवो हरिण्यः दिशो वा अयस्मय्यः अवांरदिशा रचता ऊर्धि दिशास्म कल्पयदि कस्त्वा विशास्ति त्याह हिगुम साइ अपवा यदस्माच्छ्रीराष्ट्रं क्रामधि योऽश्वमेधेन यजदे ऊर्ध्वा मेनामुच्छ्रयदादित्याः श्रीर्वैराष्ट्रमश्वमेधः श्रियमेवास्मै राष्ट्रमूर्ध्वमुच्छ्रयदि वेणुभारं गिराविवेत्याः राष्ट्रं वैभारः राष्ट्रमेवास्मै पर्यूहधि अधास्या मध्यमे ददामित्याह श्री वैराष्ट्रस्य मध्यं श्रियमेवा वरुन्धे शीतेवादे पुनन्निवेत्याः क्षेमो वैराष्ट्रस्य शीदोवादः क्षेममे वा वरुन्धे यद्धरिणी यवमतीत्याह विद्वैहरिणी राष्ट्रैयवः विश्वं चैवस्मै राष्ट्रं च समीची दधाति न पशुमन्यद इत्याह तस्माद्राजा पशुन्न पुष्यति शूद्रा यदर्यारणपोषाय धनाय धीत्या तस्माद्वै क्षीपुत्र नाभिषिञ्जन्ते इयका शकुन्तिकेत्यह विद्वै शकुन्तिका राष्ट्रमश्वमेधः विश्वं चैवस्मै राष्ट्रं च समीची दधाति आ कदमिति सर्पदीत्याह तस्माद्राष्ट्राय विष्यः सर्पन्ति आकदं गभे पस इत्याह विढ्वै गभः राष्ट्रं पसः राष्ट्रमेव विष्याहन्ति तस्माद्राष्ट्रौ विशङ्खातुकं माता चदे पिता चद इत्याह इयं वै मादासौ पिता आभ्यामे वैनं परिददाति अग्रौ वृक्षस्य रोहद इत्याह श्रीर्वै वृक्षस्याग्रम् श्रियमेवा वरुन्धे प्रसूलामिदि तेऽपि दागभे मुष्टिमदगुं स यदित्याह विड्वैगभः राष्ट्रं मुष्टिः राष्ट्रमेव विशाहन्ति तस्माद् राष्ट्रं विश्वं घातुकम् अपवा ये देभ्य प्राणाक्रामन्ति ये यज्ञो पूतं वदन्ति दधिक्राम्णो अकारिषमिति सुरभिमदी मृजं वदन्ति प्राणावै वै प्राणाने प्राणानेवात्मन् दधते नैभ्यप्राणा अपक्रामन्ति आपोष्ठामयोभुव इत्याद्भ्येत्मार्जयन्ते अपो वै सर्वा देवताः देवताभिरेवात्मानम् पवयन्ते प्रजापधि प्रजा सृष्ट्वा प्रणानुप्राविशद पभ्य पुनः सम्भवितुं न शक्नोद सोऽब्रवीद यो मेधपुनः सम्भरदिति तं देवा अश्वमेधेनैव समभरन् तदो वैत आर्ध्नोह्वन् योऽस्वमेधेन यजते प्रजापदिमेव सम्भरत्य ऋध्नोति पुरुषमालभदे वैराजो वै पुरुषः विराजमेवा लभदे अधो अन्नं वै विराड अन्नमेवा वरुन्धे अश्वमा लभते प्राजापत्यो वा अश्वः प्रजापतिमे वा लभते अधो श्रीर्वा एकशफं श्रियमेव वरुन्धे ग्रामालभदे यज्ञो वै यज्ञमेवा लभते अधो अन्नं वै गौः वरुन्धे अजावी आलभदे दे भूमने अधो पुष्टिवै भूमा पुष्टिवरुंधे पर्यनिमुषं चारण्या घुस्ोत्सृजन्त्युम साइ उौ व ये दव पशु आलभ्य दे यमो य परमः ते यज्ञे बद्धाः अभीष्टा अभिप्रीदाः अभिजिदा अभिहुदा भवन्ति नैनं दंक्ष्णवः पशवो यज्ञे बद्धाः अभीष्ट अभिप्रीदाः अभिजिदा अभिहुदा विगुंसन्ति योऽश्वमेधेन यजते य उचैनमेवं वेद प्रथमेन वा येष स्तोमेन राध्वा च दुष्टोमेन कृते न यानामुत्तरेहन् एकविगुंसे प्रतिष्ठायां प्रदितिष्ठति एकविगुंशात् प्रतिष्ठाया ऋदूनन्वारोहति ऋधवो वै पृष्ठानि ऋधवत् संवत्सरः ऋदुष्वेव संवत्सरे प्रतिष्ठाय देवदा अभ्यारोहति शकवरह्य पृष्टं भवन्त्यन्यदन्यच्छन्दः अन्ये अन्ये वा उदे वग्राम्याः उदे वारण्याः अहरेवरूपेण समर्धयदि अधो अह्ना ये वै शबलिर्ह्रियते तदाहुः अपशवो वा यदजा वयश्चारण्याश्च ये, ये वै सर्वे पशवः यद्गव्या यदि पशूनुत्तमे हन्ना लभते तेनैवो भयान् पशूनवरुन्धे प्राजापत्या भवन्ति अनधिजितस्याभिजित्यै सौर्यैर्नव श्वेदा वशा आनो बद्ध्या भवन्ति अन्तत सोमा यस्वराज्ञे नो वानड्वाहाविधि द्वन्द्विर्नः पशूना लभते अहोराणामभिजित्यै पशुभिर्वा यश्रव्यर्भ्यदे योश्वमेधेन यजदे चगलं कल्माश्रं कि दिव्य विदीर्गयमिदित्वाष्ट्रान् पशूना लभते पशुभिरेवात्मानगं समर्धयति ऋतुभिर्वा एष व्यर्ध्यदे योश्वमेधेन यजदे पिशङ्गास्त्रयो वासन्ता इत्य ऋतुपशूना लभते ऋतुभिरेवात्मानगम् समर्धयदि आव येष पशुभ्यो वृच्छ्यते योऽश्वमेधेन यजते पर्यग्निकृता उत्सृजन्त्यना वृत्स्काय प्रजापदिरपमयद महानन्ना दस्यामिति स यदा ताव गृह्णीद तदो वै स महानन्नादो भवद यः कमयेदमहानन्नादस्यामिति स एत वैश्वमेधे महिमानौ गृह्णीत महानेवान्नादो भवति यजमानदेवत्या वैवपा राजा महिमा यद्वपा महिम्नो भयदक् परि यजमानमेव राज्ये नो भयध परिगृह्णाति पुरस्तात् स्वाहाकारा वा अन्ये देवाः उपरिष्टात् स्वाहाकारा अन्ये देवा ये देष्व एव मेध्य उभयेवरुध्यन्ते यद्वपा महिं नो भयध तानेवो भयान्प्रीणादि वैश्वदेवो वा अश्वः तै यत्प्राजापत्यं कुर्याद दे। या दे ये ये दे। देवता अपि भागाः ता भागधेयेन व्यर्थयेद् देवताभ्यसमदं दध्यादस्तेगान्दगृष्ट्राभ्याम् दे। मण्डूकाञ्जम्भ्येभिरिति आज्यवदानं कृत्वा प्रदिसंख्याय माहुतिर्जुहोदि या एव देवता अपि भागाः ता भागधेयेन समर्धयति न देवताभ्यसमदं दधाति चदुशयिता ननु वा प्रयासाय स्वाहेदि पञ्चदशं पञ्चदश वा अर्धमासस्य रात्रयः अर्धमासस्य संवत्सर आप्यते देवासुरासयत्ता ते ब्रुवन ब्रुवन्नग्नय स्विष्टकृतः अश्वस्य मेध्यस्य वयमुद्धारमुद्धरामहै अधैतानभि भवमेति ते लोहितमुदहरन्त तदो देवा अभवन् परा सुराः यत्स्विष्टकृद्भ्यो लोहितं जुहोति भ्रादुर्व्याभिभूत्यै भवत्यात्मना परास्य भ्रादुर्यो भवति गोमृगकण्ठेन प्रथमाहुतिं जुहुदि पशवो वै गो मृगः रुद्रोऽग्निशिष्टकृद रुद्रादेव पशुनन्तर्दधादि अधो यत्रैषा हुतिर्हूयते ए न तत्र रुद्रक् पशुनभिमन्यते अश्वशफेन अधो यत्रैषाहुतिर्हूयते ए पशू न भिमन्यते अयस्मयेन कमण्डलुना तृदीयाम् आहुदिं जुहोत्यायास्यो वै प्रजाः रुद्रो अग्निस्विष्टकृत रुद्रा देव प्रजा अन्तर्दधाति अधो यत्र एषाहुदिर्भूयते न तत्र रुद्र प्रजा अभिमन्यते अश्वस्य वा आलब्धस्य मेध उद प्रामद तदश्वस्थोमीयमभवद यदश्वस्थोमीयं जुहोति समेध मे वै नमालभदे आज्येन जुहोति मेधो वा आज्यं मेधोश्वस्थोमीयम् मेधे नैवास्मिन्मेधं दधाति षट्त्रिघुं शतं जुहोति षट् त्रिगुं शताक्षरा बृहति बार्हता पशवः सा पशूनां मात्रा पशूनेव मात्रया समर्धयति ता यद् भूयसिर्वा कनीयसीर्वा जुहुयाद पशून्मात्रया व्यर्धयेद षट् तृगुं शतं जुहोदे षटगुं शदक्षरा बृहदि वार्हदा पशवः स पशूनां मात्रा पशूनेव मात्रया समर्धयति अश्वस्थोमीयगुं भुक्त्वा द्विपदा जुहोदि द्विपाद्वैपुरुषो द्विप्रतिष्ठः तदेनं प्रतिष्ठया तदे समर्थयति तदह अश्वस्तोमीयं पूर्वगोम् ओदव्या आन्द्विपदा आ, आ, आ, आ, आ, आ, आ इति अश्वो वा अश्वस्तोमीयं पुरुषो द्विपदाः अश्वस्तोमि यगुं उत्वा द्विपदा जुहोदि तस्मात् द्विपाच्चतुष्पादमस्ति अधो द्विपद्येव चतुष्पदप्रतिष्ठापयदि द्विपदाहुत्वा नान्यामुत्तरामाहुदिं जुहुयाद यदन्यामुत्तरामाहुदिं जुहुयाद प्रतिष्ठायाश्च्यवेद द्युपदा अन्धदोजुः दिप्रधिष्ठित्यै प्रजापतिरश्वमेधमसृजद सोऽस्मात्सृष्टोपाप्रामद तैयज्ञक्रतुभिरन्वैच्छद तं यज्ञक्रतुभिर्नान्वविन्दद तमिष्ठिभिरन्वैच्छद तमिष्ठिभिरन्वविन्दद तदिष्ठीनामिष्ठित्वं यत्संवत्सरमिष्ठिभिर्यजते अश्वमेव तदन्विच्छति सावित्रियो भवन्ति इयं वै सविदा यो वा अस्यां नश्यति यो निलयदे अस्यां वा वतं विन्दी न वा इमां कश्च नेत्याहुः तिर्यङ्नोऽर्ध्वत्येदो मर्हतीति यत् सावित्रियो भवन्ति सविदृक्प्रसूदये सा वै नमिच्छति ईश्वरो वा अश्वप्रमुक्तः परां परा वदं गन्धोः यत् सायं धृतिर्जुहोदि अश्वस्य यत्यै धृत्यै यत्प्रादरिष्टिभिर्यजदे अश्वमेव तदन्विच्छति यत् सायं धृतिर्जुहोदि अश्वस्यैव यत्यै धृत्यै तस्मात् सायं प्रजाः क्षेम्या भवन्ति यत्प्रादरिष्टिभिर्यजदे अश्वमेव तदन्विच्छति तस्माद्दिवा नष्टैष एदि यत्प्रादरिष्टिभिर्यजदे सायं धृतिर्जुहोति अहोरात्राभ्या मे वै न मन्विच्छति अधो अहोरात्राग्भ्यामेवस्मै योगक्षेमं कल्पयति अपवा यदस्माच्छ्रीराष्ट्रम् क्रामदि योऽश्वमेधेन यजदे ब्राह्मणौ वीणागाधि गायदह श्रिया वा यद्रूपं यद्वीणा श्रियमेवास्मिन् तद्दत्तः यदा खलु वै पुरुषश्रियमश्नुदे वीणास्मै वाद्यदे तदाहुः यदुभौ ब्राह्मणौ वा येदं प्रभगं शुकस्माच्छ्री स्याद न वैभ्राह्मणे श्रीरमद इति ब्राह्मणोऽन्यो श्री गायेत राजन्योन्यः ब्रह्मवैभ्राह्मणः क्षत्रगुं राजन्यः तदा हस्य ब्रह्मणा च क्षत्रेण चोभयदश्री परिगृहीता भवति तदाहो यदुभौ दिवा गायेदा अप अस्मद्राष्ट्रं क्रामेद न वै ब्राह्मणे राष्ट्रगं इति यदा खलु वै राजा पमयदे जिनादि दिवा ब्राह्मणो गायेद नगुं ब्राह्मणो वैरूपमहः क्षत्रस्य रात्रिः तथा हास्य ब्रह्मणा च क्षत्रेण चोभयतो राष्ट्रं परिगृहीतं भवति यद्य ददा यत्ययजथा यदि ब्राह्मणो भयेद इष्टापूर्तं वै ब्राह्मणस्य इष्टापूर्ते नैवै नगम् स समर्धयदि इत्यजिना इत्ययुध्यदा इत्यमोगुं संग्राम महन्निति युद्धं वै राजन्यस्य युद्धेनैव नगुं स समर्धयदि अक्रोक्ता वा येतस्य यजद इति तिस्रोण्यो गायधि तिस्रोण्यः षट् सम्पद्यन्ते षड्वा ऋतवः ऋतूनेवास्मै कल्पयतः ताभ्यागुं सगृस्थायाम् अनो युक्ते च शते च ददाति शदायुपुरुषशदेन्द्रियः आयुष्यवेन्द्रिये प्रतिष्ठति सर्वेषु वा येषु लोकेषु मृत्यवोऽन्वायत्ताः तेभ्यो यदा हुतिर्न जुहुयाद लोके लोकयेन मृत्युर्विन्देद मृत्यवे स्वाहा मृत्यवे स्वाहेत्यभिपूर्वमाहुतिर्जुहोति लोकाल्लोकादेव नै नल्लोके ना लोके मृत्युर्विन्दति यदमुष्मै स्वाहामुष्मै स्वाहेदि जुह्वत्सं चक्षीद बहुं मृत्युममित्रम् कुर्वीद मृत्यवे स्वाहेत्येकस्मा एैकाञ्जुहुयाद एको वा अमुष्मिन् लोके अशनया मृत्युरेव तमेवा तमेवामुष्मिन्लोके व्यजते द्रोणहत्या यै स्वाहेत्यपभृद आहुतिं जुहोति भ्रोणहत्यामेव वयजते तदाहुः यद्भ्रोणहत्या पात्र्याध तस्माद् यज्ञेऽपिक्रियद इति आम्र मृत्युर्वा अन्यो भ्रूणहत्याय इत्याहुः भ्रूणहत्या वा मृत्युरिति यद्भ्रूणहत्यायै स्वाहेत्यपभृद आहुतिं जुहोति मृत्युमेवाहुत्य तर्पयित्वा परिपाणं कृत्वा भ्रूणग्निभेषजं करोति यधा गुंह वै मुण्डिभ औदन्यवः भ्रूणहत्यायै प्रायश्चित्तिं विदाञ्चकार यो हास्यापि प्रजायां ब्राह्मण गुंहन्ति करोति जुम्बकाय स्वाहेत्यबभृद वरुणो वै जुम्पकः अन्धत एव वरुणमवयजदे खलतेर्विक्लिधस्य शुक्लस्य पिङ्गाक्षस्य मूर्धन् जुहोति यदद्वै वरुणस्य रूपं रूपेणैव वरुणमवयजते परुणो वा, वा अश्वः तं देवतया व्यर्धयति दे। यत् प्राजापत्यं करोति नमो राज्ञे नमो वरुणायेत्याह वरुणो वा अश्वः स्वयैवैनं देवतया समर्धयदि नमोऽश्वाय नमः प्रजापदाय इत्याह प्राजापत्यो वा अश्वः स्वयैवैनं देवतया समर्धयदि नमोऽधिपदय इत्याह धर्मो वा अधिपदिः धर्ममे वा वरुन्धे अधिपदिरस्यधिपदिं मा कोर्वधिपदिरहन् प्रजानाम् भूयासमित्याह अधिपदि मे वैनगुं समानानां करोति मां धेहि मयि धेहि त्याः आशिषमे वैतामाशास्ते उपाकृताय स्वाहेत्युपा कृदे जुहोदि आलब्धाय स्वाहेदि नियुक्दे जुहोदि हुदा यत् स्वाहेदि हुदे जुहोदि येषालोकानात्मभिजित्यै प्रवाचेभ्यो लोकेभ्यश्च्यवदे योऽश्वमेधेन यजदे अग्नेयमहीन्द्राग्नमाश्विनं तान् पशूनालभदे प्रदिष्ठित्यै यदा अग्नेयो भवति अग्निःसर्व देवता देवता ये ब्रह्म वा अग्निः क्षत्रमिन्द्रः य दैन्द्राग्नो भवति ब्रह्मक्षत्रे येवावरुन्धे यदा अश्विनो भवति आशिषामवरुध्यै त्रयो भवन्ति त्रय इमे लोकाः येष्वेव लोकेषु प्रतिष्ठति ग्नये गुं होमुचेष्टा कपाल इति दश हविषमिष्टिं निर्वपति दशाक्षरा विराड अन्नं विराड विराजैवानाद्यमवरुन्धे अग्नेर्मे प्रथमस्य प्रचेतस इति याज्ञानुवाक्या भवन्ति सर्वत्वाय यद्यश्वपतपद्विन्देद आग्नेयमष्टाकपालं निर्वपेद सौम्यं चरुन् सावित्रमष्टाकपालं यदा अग्नेयो भवति अग्निसर्वा देवताः देवताभिरेवैनं विषज्यति यत् सौम्यो भवति सोमो वा ओषधीनाधुं राजा याभ्य एव वैनं विन्दति ताभिरे वैनम् विषज्यति यत् सावित्रो भवति सविदृप्रसूदये सा वैनम् विषज्यति येताभिरेवैनं देवताभिर्भिषज्यदि अगदो हैव भवति ौष्णं चरुं निरूपपेद यदि श्लोणस्याद् पुषा वै श्लोण्यस्य भिशक स एव वैनं भिषज्यति श्लोणो हैव भवति रौद्रं चरुं निरूपपेद यदि महदि देवताभिमन्येद यदेवत्यो वा श्वः स्वयैवैनं देवदयाभिषज्यति अगदोहैव भवति वैश्वानरं द्वादशकपालं निर्वपेन्मृगा हरे यदि नागच्छेद इयं वा इयमे वैनमर्चिभ्यां परिरोधमान यदि आ सुत्यमहर्गच्छति यद्य धीयात् अग्नये गुंहोमुचेष्टाकपालः सौर्यम्पयः वायव्य आज्यभागः यजमानो वा अश्वः अगुंह स वा एष गृहीतः यदगुंहोमुचे निर्वपदि अगुंहसयैवते न मुच्यते यजमानो वा अश्वः प्रदसा वा येषव्यर्हृध्यते यस्याश्वो मेधाय प्रोक्षितोऽध्येधि सौर्यगुं रेदः यत्सौर्यं पयो भवति रेदसैवैनगुं स यजमानो वा अश्वः गर्भैर्वा येष व्यरुध्यदे यस्याश्वो मेधाय प्रोक्षितोऽद्यदि वायव्या गर्भाः यद्वायव्या आज्यभागो भवति गर्भैरे वैनगं स अधो यस्यैषाश्वमेधे प्रायश्चिधिक्रियते ष्ट्वा वसीयान् भवति तदाहुः द्वादशब्रह्मौ दनान् निर्ववेद द्वादशभिर्वेष्टिभिर्यजेतेदि यदिष्टिभिर्यजेत उपनामुकयेन्नै यज्ञ स्याद उपनामुक यागुस्तु स्याद आप्तानि वा येदस्य चन्दागुंसि यी जानः तानि कयेदा वदाशु पुनः प्रयुञ्जीतेदि सर्वा वै सग्ुस्थिते यज्ञे वा साप्ता भवति क्रूरी कृते व हि भवत्यरुष्कृदा सा न पुनः प्रयुज्येत्याहुः द्वादशैव ब्रह्मौ धनान् सग्स्थिते निर्वपेद प्रजापतिर्वा वोदनः यज्ञप्रजापतिः उपनामुपयेन यज्ञो भवति न पापीयान् भवति पा द्वादश भवन्ति द्वादशमासात् संवत्सरः संवत्सर एव एष वै विभोर्नाम यज्ञः तत्र विभु भवति यत्रैतेन यज्ञेन यजन्ते एष वै प्रभुर्नाम यज्ञः सर्वगं तत्र प्रभु भवति यत्रैतेन यज्ञेन यजन्ते एष वा ऊर्जस्वान्नाम तत्र जस्वद्भवति यत्रैतेन यज्ञेन यजन्ते यष वै यज्ञः सर्वगं तत्र पयस्वद्भवति यत्रैतेन यज्ञेन यजन्ते एष विधृतो नाम यज्ञः सर्वगं तत्र विधृतं भवति यत्रैतेन यज्ञेन यजन्ते एष व्यावृत् तो नाम यज्ञः सर्वगं हवै तत्र व्यावृत्तं भवति यत्रैतेन यज्ञेन यजन्ते ये येष प्रतिष्ठितो नाम यज्ञः <स्वेर> ना सर्वगं हवै तत्र प्रधिष्ठितं भवति यत्रैतेन यज्ञेन यजन्ते एष तेजस्वी नाम यज्ञः सर्वगृंह वै तत्र तेजस्वी भवति यत्रैतेन यज्ञेन यजन्ते एष वै नाम यज्ञः अह तत्र ब्राह्मणो ब्रह्मवर्चस्वी जायते दे। यत्रैतेन यज्ञेन यजन्ते एष वदिव्याधी नाम यज्ञः आह वै तत्र राजन्यो दिव्याधी जायते दे यत्र यत्नेन यजन्ते एष वै दीर्घो नाम यज्ञः दीर्घायुषोः वै तत्र मनुष्या भवन्ति यत्रैतेन यज्ञेन यजन्ते एष वै कृप्तो नाम यज्ञः कल्पदेह वै तत्र प्रजाभ्यो योगक्षेमः यत्रैतेन यज्ञेन यजन्ते तार्प्येणाश्वगं संज्ञपयन्ति यज्ञो वैतार्प्यं यज्ञेनै वैनगं समर्धयन्ति यमेन साम्ना प्रस्तोतानुपतिष्ठदे यमलोकमे वैनं गमयदि पार्प्ये च कृत्याधीवासे चाश्वगं संज्ञपयन्ति यदद्वै पशूनागुं रूपं रूपेणैव पशूनवरुन्थे हिरण्य कशिपुभवति तेजसो वरुध्यै रुक्मो भवति सुवर्गस्य लोकस्यानुख्यात्यै अश्वो भवति प्रजापतेराप्त्यै अस्य वै लोकस्य रूपं तर्प्यम् अन्तरिक्षस्य कृत्यधीव सः दिवो हिरण्यकशिपु आदित्यस्य रुक्मः प्रजापदेरश्वः इममेव लोकं तार्प्येणाप्नोहि अन्तरिक्षं कृत्यधीवास्येन दिवगं हिरण्यकशिपुना श्वेनैव मेध्येन प्रजापतेः सायुज्य गुं स लोकतामाप्नोति ये दासामेव देवतानागुं सायुज्यं साष्टिता गुं समानलोकतामाप्नोति योऽश्वमेधेन यजते य उ चैनमेवं वेद आदित्या चाङ्गिरसश्च चा। सुवर्गे लोगे स्पर्धन्त तेङ्गिरस आदितेभ्यः अमुमादित्यमश्वग्दम्भूदं दक्षिणामनयन् ते ब्रुवन् यं नो तस्मादश्वगं स तस्माद्यज्ञे वरो दीयदे यत्प्रजापतिरालब्धोऽश्वो भवद तस्मादश्वो नाम यश्वयदरुरासीद तस्मादर्व नाम यत्सद्यो समजयद तस्माजीनाम युरालोकन दमदिनाम अर्वा अश्वेध से सूर्यग्नेदशेनौचि उत्तर वेदे मु पवपति योनिमन्त मे वैनमाय धनवन्तं करोति योनिमानायतनवान् भवति य एवं वेद प्राणापानौ वा येदौ देवानां यदर्काश्वमेधौ प्राणापानावेवा वरुन्धे ओजो बलं वा येदौ देवानां यदर्काश्वमेधौ ओजो बलमेवा वरुन्धे अग्निर्वा अश्वमेधस्य यो निरायतनं सूर्ययोऽग्निर्योनिरायतनं यदश्वमेधेग्नौ चित्य उत्तरवेदिं चिनोदि तावर्काश्वमेधौ अर्काश्वमेधावेव वरुन्धे अर्धो अर्काश्वमेधयोरेव प्रदितिष्ठति वैदेवा वैदेवापितरं पशुम्भोधं मेधाया लभन्ध तमा लभ्यो लभ्योपावसन् प्रादर्यष्ठास्मः इति एकं वा एतद्देवानामः यत्संवत्सरः तस्मादश्व पुरस्तात् आलभ्यदे आलभ्यते यत् प्रजापतिरालब्धोऽश्वो भवद तस्मादश्वः यत् सद्यो मेधो भवत तस्मादश्वमेधः वेदुकोऽश्वमाशुं भवति य एवं वेद यद्वै तत्प्रजापतिरालब्धोऽश्वो भवद तस्मादश्वप्रजापदेः पशुना मनु रूपतमः आस्य पुत्रप्रतिरूपो जायते य एवं वेद सर्वाणि बोधानि संभृत्या लभते समेनं देवास्तेजसे ब्रह्मवर्चसाय भरन्ति योऽस्व मेधेन यजते य उचैनमेवं वेद ये तद्वै तद्देवा येदा देवतां पशुम्भोदं मेधाया लभन्त यत्नमेव यज्ञेन यज्ञमयजन्द देवाः कामप्रै यज्ञमकुर्वद ते मृदत्वमकामयन्द ते मृदत्वमगच्छन् योऽश्वमेधेन यजदे देवानामे वायनेन इति प्राजापत्येनैव यज्ञेन यजदे कामप्रेण अपुनर्मारमेव गच्छति यदस्य वैरूपेण पुरस्तात् प्राजापत्यमृषभं तू परं बहुरूपमालभते सर्वेभ्य कामेभ्यः सर्वस्य जित्यै सर्वमेव ते नाप्नोति सर्वं जयधि योऽश्वमेधेन यजदे य उचैनमेवं वेद यो वा अश्वस्य मेध्यस्य लो मनी वेद अश्वस्यैव मेध्यस्य लो मल्लो मञ्जुहोति अहोरात्रे वा अश्वस्य मेध्यस्य लो मनि यत्सायं प्रादर्जुहोति अश्वस्यैव मेध्यस्य लो मल्लो मञ्जुहुदि एतदनुकृति हस्म वै अश्वस्य मेध्यस्य लो मल्लो अश्वस्य मेध्यस्य पदे वेद अश्वस्यैव मेध्यस्य पदे पदे जुहोदि दशपूर्णमासौ वा पदे यद्दर्श पूर्णमासौ यजदे अश्वस्यैव मेभ्यस्य पदे पदे जुहोदि एतदनुकृति हस्म वै अश्वस्य मेध्यस्य पदे पदे जुह्वति यो वाश्वस्य मेध्यस्य विवर्दनं वेद अश्वस्यैव मेध्यस्य विवर्दने विवर्दने जुहोदि असौ वा आदित्योश्वः स आपवनीयमागच्छति तद्विवर्तदे यदग्निहोत्रं जुहोति अश्वस्यैव मेध्यस्य विवर्तने विवर्तने जुहोति एतदनुकृतिः वैपुरा वै मेध्यस्य विवर्तने विवर्तने जुह्वति हरिः ओ आभिर्गेर्भिर्यततो न ऊनमाप्यायय हरिवो वर्धमानः यधास्तोद्रुभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अथ तेष्याम ब्रह्मप्रवा दिष्म तन्नो माहासीद ॐ शान्ति शन्तिशान्तिः